श्री श्रीगुरुभ्यो नमः हरि ॐ निर्गुणमानसपूजा शिष्य उवाच अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणी स्थिते द्वितीय भावेतपि कथं पूजा विधीयते पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनं स्वच्छस्य पाद्यमर्ग्यं च शुद्धस्याचमनं कुतः निर्मलस्य कुतस्नानं वासो विश्वोतरस्य च अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् निर्लेपस्य कुतो पुष्पं निर्वासनस्य च निर्विशेषस्य का भूषा कोलङ्कारो निराकृते निरञ्जनस्य दीपैर्वा सर्वसाक्षिणः निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिहा विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते स्वयं प्रकाशचिद्रूपो यो सा बर्काधिभासकः गीयते श्रुतिपिस्तस्य नीराजनविधिकृतः प्रदक्षिणमनन्तस्य वेदवाचाम वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते अन्तर्बहिः संस्थितस्य उद्वासनविधिक्कुतः श्रीगुरुरुवाच आराधयामि मणिसन्निभमात्मलिङ्गम् मायापुरीहृदयपङ्गजसन्निविश श्रद्धानती विमलचित्तजलाभिषेकै नित्यं समातिकुसुमैरपुनर्भवाय अयमेको शिष्टोऽस्मि देवमावाहयेत् शिवम् आसनं कल्पयेत् पश्चात् स्वप्रतिष्ठ त्मचिन्तनम् पुण्यपापरजः सङ्घो मम नास्तीतिवेदनम् पाद्यं समर्पयेद्विद्वान् सर्वकल्मशनासनम् अनातिकल्पविद्रुतमूलाज्ञानजलाञ्जलिम् विसृजेतात्मलिङ्गस्य तथेवार्ग्यसमर्पणम् ब्रह्मानन्दाप्तिकल्लोलकणकोट्यं सलेसखम् बिबन्दीन्द्रादय इति ध्यानमाचमनं मतम् ब्रह्मानन्दजलेनैव लोका सर्वे परिप्लुताः अक्लेद्योयमिति ध्यान अभिषेचनमात्मनः निरावरणचैतन्यम् प्राकाशोऽस्मीति चिन्तनम् आत्मलिङ्गस्य सत्त्वस्त्रयमित्येवम् चिन्तयेन्मुनिः त्रिगुणात्मा शेषलोकमालिका शूद्रमस्म्यहम् इति निश्चयये वात्र ह्युपवीतम् परं मतम् अनेकवासनामिश्रप्रपञ्चोऽयम् त्रितोमया नान्ये नेत्यनु आत्मन नान्येनेत्यनुसन्तानमात्मनच्छन्तनं भवेत् रजःसत्त्वतमो वृत्तित्यागरूपैस्तिलाक्षथैः आत्मलिङ्गं यजेत् नित्यं जीवन्मुक्तिप्रसिद्धये ईश्वरो गुरुरात्मेति ेतत्रयविवर्जितैः बिल्बपत्रैरद्विधीयैरात्मलिङ्गं यजेत् शिवम् समस्तवासनात्याघं धूपं तस्य विचिन्तयेत् ज्योतिर्मयात्मविज्ञानं दीपं संतर्षयेत् बुतः नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाग्यं महोधनम् पिभाचिदानन्दरसंस्वाधु मृत्युरस्योपसेचनम् अज्ञानोचिष्टकरस्य शालनं विशुद्धस्यात्मलिङ्गस्य हस्त क्षालनम् रागादी राघादिगुणशून्यस्य शिवस्य परमात्मनः सरागविषयाभ्यास त्यागस्थाम्बूलचर्वणम् अज्ञानद्वान्तविद्वंस प्रचण्डमधिभास्करम् मनो ब्रह्मथाज्ञानम् नीराजनमिहात्मनः विविधब्रह्मसन्तृष्टि मालिकापिरलङ्कृतम् पूर्णानन्दात्मथा दृष्टिम् पुष्पाञ्जलिमनुस्मरेत परिभ्रमन्ति ब्रह्माण्ड सहस्राणि मयीश्वरे कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणं विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मधन्यगः इद्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् आत्मनः ्रिया प्रोक्ता कर्तव्या भावभावना नामरूपव्यतीतात्मचिन्तनं नाम कीर्तनम् श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनं मननं त्वात्मलिङ्गस्य मन्दव्याभावचिन्तनम् त्यादव्याभावविज्ञानं निदित्यासनमात्मनः समस्तभ्रान्तिविक्षेभ राहित्येनात्मनिष्ठता समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः तत् त्रैवम् ब्रह्मणी सदा चित्तविश्रान्तिरिष्यते एवं वेदान्तकल्पोत्तस्वात्मलिङ्गप्रपूजनम् कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः सर्वदुर्वासनाजालम् पदं पां सुमिव त्यजेत विदूयाज्ञानदुःखौघं मोक्षानन्तं समश्नुते हरिः ॐ